अथ चतुष्षष्टितमः सर्गः आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः सङ्गताः प्रीतिसंयुक्ता विने दुःसिंहविक्रमाः सम्पातेर्भचनम् श्रुत्वा हरयो रावणक्षयम् हृष्टाः सागरवाजग्मस्सीता दर्शनकाङ्क्षिणः अभिगम्यतु तम् देशम् ददृशुर्भीमविक्रमाः कृत्स्नम् लोकस्य महतः प्रतिबिम्बमवस्थितम् दक्षिणस्य समुद्रस्य समासाद्योत्तराम् दिशम् सन्निवेशम् ततश्चक्रुर्हरिवीरा महाबलाः प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् सङ्कुलम् दानवेन्द्रैश्च पातालतलवासिभिः रोमहर्षकरम् दृष्ट्वा विषे दुः कपिकुञ्जराः आकाशमिव दुष्पारम् सागरम् प्रेक्ष्य वानराः विषे दुःसहिताः सर्वे कथम् कार्यमिति ब्रुवन् विषण्णाम् वाहिनीम् दृष्ट्वा सागरस्य निरीक्षणात् आश्वासयामास हरीन् भयार्तान् हरिसत्तमः न विषादे विषादो दोषवत्तरः विषादो हन्ति पुरुषम् बालम् क्रुद्ध यो विषादम् प्रसहते चिक्रमे समुपस्थिते तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति तस्याम् रात्र्याम् व्यतीतायामङ्गदो वानरैः सह हरिवृद्धैः समागम्य पुनर्मन्त्रमन्त्रयत् सा वानराणाम् ध्वजिनी वासवम् परिवार्येव वा मरुताम् वाहिनी स्थिता कोऽन्यस्ताम् वानरीम् सेनाम् शक्तः स्तम्भयितुम् भवेत् अन्यत्र वालितलयादन्यत्र च हनूमतः ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिन्दमः अनुमान्याङ्गदश्रीमान् वाक्यमर्थवदब्रवीत् क इदानीम् महातेजालङ्घयिष्यति सागरम् कः करिष्यति सुग्रीवम् सत्यसन्धमरिन्दमम् को वीरो योजनशतम् लङ्घयेत प्लवङ्गमः इमांश्च यूथपान् सर्वान् अभिगच्छेम सम्भ्रष्टा सुग्रीवम् च वनौकसम् यदि कश्चित् समर्थो वः सागरप्लवने हरिः स ददा त्विह नः न कश्चित् किञ्चिदब्रवीत् स्थिवितेवाभवत् सर्वा सा हरिवाहिनी पुनरेवाङ्गदः प्राहतान् हरीन् हरिसत्तमः सर्वे े बलवता श्रेष्ठ दृढ़ विक्रमा व्यपदेशकुलेता पूजिताश नि वो गने संग कदाचि कसचि भवत ब्रुवध्व य प्लवने्लकर्षभा इशे श्रीमद्मा आजिका किंधका चतुष्टित सर्ग